श्रीमद्भागवतमहापुराणं चतुर्षस्कन्ध अष्टाविंशोऽध्यायः विभज्यतनयेभ्य क्ष्मां राजर्षिर्मलयध्वजः आरिराधेशो कृष्णं स जगामकुलाचलं हित्वा गृहान् सूतान् भोगान् वैदर्भीमदिरेक्षणा अन्नधावत् पाण्ड्येशं ज्योत्स्ने रजनीकरम् तत्र चन्द्रवशा नाम ताम्रपर्णीवटोदका तत्पुण्यासलरे नित्यमुभ्यत्रात्मनो मृजन् कन्दादिष्टिर्भिर्मूलफलैः पुष्पफले तृणोदकैर् वर्तमानसनिर्गात्रकर्षणं तपासितः शीतोष्णवात् वर्षाणि चित्पिपासे प्रियाप्रिये सुखदुःखेति द्वन्द्वान्य जय समं तपसा विद्या पक्वकषायो नियमै यमयि योजये ब्रह्मण्यात्मानं विजिताक्षानिलाशयः आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं सर वासुदेवे भगवती नान्यद्वेदोद्वहन्ततिं श्या वां व्यापकतयात्मानं व्यतिरिक्ततयात्मने विद्वान्स्वप्न युवामर्श साक्षिनं साक्षाद्भगवतोक्तेन गुरुणा हरिणा रिप विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मने वीक्षमाणो विहायेक्षाम् अस्मादूपररामः पतिं परं धर्मज्ञं वैदर्भीमलियध्वजम् प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता चीरवासा वृतक्षामा वेडीभूतशिरोरुहां बभापूपपतिं शान्ता शिखा प्रियतमं यदोपरं तमङ्गना सुस्थिरासनमासाद्य यथा पूर्वमुपाचरत् यदा लोपलभेताङ्घ्रा उष्माणं प्रत्युरर्चते आसीत् संयग्न हृदया यूथभ्रष्टा यथा आत्मानं शोचती दीनं अबन्धुं विक्लवास्रुभिः सनावासे च विपिने सुस्वरं प्ररोदसा उत्तिष्ठोतिष्ठराजसे मा मुदति मे कलां दस्युभ्य छत्रबन्धुभ्यो एवं विलपति बाला विपुलेऽनुगता पतिं पतितापादियोर्भोर्तुम्भर्तोशून्यवर्तयत् चितिं दारुमयीं चत्वा तस्यां पद्यो कले वरम् आदिप्यचानुमरणे विलपन्ति मनोदधे तत्र पूर्वतरः कस्य सखा ब्राह्मण आत्मान् सान्त्वन्वल्गुना साम्ना तामाहारुतीं प्रभो ब्राह्मणुवाच का त्वं कस्यासि को वायं शयानो यस्य शोचसि जानासि किं सखायं मां येनाग्रे विचरसहा अपि स्मरसि चात्मानम् अभिज्ञात सखं सखे हित्वा मां पदमन्विच्छन् भौम हंसावहं च त्वं चार्य शखायौ मानसाजनौ अभूतामन्तरावौकः सहस्रपरिवत्सरान् स तं विहाय मां गतो ग्राम्यमतिर्महीं वितरन् पदमद्राक्षि कयाचिन्निर्मितं श्रियां पञ्चारामं नवद्वारं एकपालं त्रिकोशकं षट्कुलं पञ्चविपणं पञ्चप्रकृतिश्रीधवम् पञ्चेन्द्रियार्था आरामा प्राणा नवप्रभो तेजोपन्नानि कोष्ठानि कुलमिन्द्रियसंग्रह विपणस्तो क्रियाशक्तिर्भूतप्रकृतिरव्यया शक्तधि स पुमास्त्वत्र प्रविष्टो नावबुध्यते तस्मिन् तं रामया स्पृष्टो रममाणोऽ सुतस्मृतिः तत्सङ्गादिदृशीं प्राप्तो दसां पापीयसीं प्रभो न त्वं विदर्भदुहिता नायं वीरसुहि तव न पते स्त्वं पुरञ्जन्या रुद्धो नो मुखे यया मायाशेषा मया श्रेष्ठा यत्पुमान् संश्रियं सतिं मन्यसेनोभयं यद्वै हंसोपश्यावयोर्गतिम् अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्षुभो न न उपश्यन्ते कवच्छिद्रं जातो मनागपि यथा पुरस आत्मानम् एकमादर्शचक्षुषोः यथाभूतमवेक्षेत तथैवान्तरमावयोः एवं समानसो सोहं हंसेन प्रतिबोधितः स्वस्थस्तद्यभिं चारेण नष्टा पुनः स्मृतिम् बर्हिष्मन्ये तदध्यात्मं पारोक्षेण प्रदर्शितं यत्परोक्षप्रियो देवो भगवान् विश्वभावनः श्री श्रीमद्भावुते महापुराणे पारभंश्यां चैतायां चतुर्सु स्कन्दे पुरञ्जनोपाख्याने